हरि ओम् श्रीसीतारामचन्द्राभ्यां नमः अथ श्रीमद्वाल्मीकि रामायणे युद्धकाण्डे द्व्यधिकशतमः सर्गः इन्द्रप्रीतम् रथमारूढस्य रामस्य रावणेन सह युद्धम् लक्ष्मणेन तु तद्वाक्यम् उक्तम् श्रुत्वा स राघवः सन्दधे परविरघ्नो धनुराधाय वीर्यवान् रावणाय शरान् घोरान् विसजर्य च मोमुखे अथान्यम् रथमाथाय रावणो राक्षसाधिपः अभ्यधावत काकुत्स्थम् स्वर्भानोरिव भास्करम् दशग्रीवो रथस्थस्तु रामं वज्रोपमेश्वरे अजघाना महाशैलम् धाराभिरिवतो यदः दीप्तपावकसङ्काशै शरकाञ्चन भूषणैः अभ्यवच दृढे रामो दशग्रीवं समाहितः भोमोऽस्थितस्य रामस्य रसस्थस्य च रक्षसः न देवगन्धर्वकिन्नरः ततो देव वरश्रीमान् श्रुत्वा तेषाम् वचोकृतम् आहूय मातलिम् चक्रो वचनम् चेदमब्रवीत् रथेन मम भूमिष्ठम् शीघ्रम् याहि रघुत्तमम् आहूय भूतलम् यात कुरु देवहितमहेत् इत्युक्तो देवराजेन मातलिदेव सारथी प्रणम्य शिरसा देवम् ततो वाच नमब्रवीत् शीघ्रम् यास्यामि देवेन्द्र सारथ्यम् च करोम्यहम् ततो हये च संयोज्य हरितैः चन्दनोत्तमम् ततः काञ्चन चित्राङ्ग किङ्किणी शतभूषितः तरुणादित्यसङ्काशो वैदूर्यमय कोबरः सदश्वै युक्त श्वेतः प्रकीर्णकै हरिभिः सूर्यसङ्घाषै हेमजाल विभूषितै रुक्मवेणो ध्वज श्रीमान् देवराजो रथोवरः देवराजेन सन्दिष्टो रथम् आरुह्य मातली अभ्यवर्तक वर्तकाकुष्ठम् अवतीर्य त्रिविष्टपात् अब्रवीच्च तदा रामम् सप्रतोदो प्राञ्जलेर स्थितः प्राञ्जलेर्मातरेर्वाक्यम् सहस्राक्षस्य सारथी सहस्राक्षेण काकुत्स्थ रथोऽयम् विजयायते दत्तस्तवमासत्व श्रीमान् शत्रुनिबर्हण इन्द्रमैन्द्रम् महच्चापम् कवचम् चाग्निसम्भवम् शराश्चादित्यसङ्काशा शक्तिश्च विमला शिवा आरुह्येमहं रथम् वीर राक्षसं जहि रावणम् मया सारथिना देव महेन्द्र इव दानवान् इत्युक्तः परिक्रम्य रथम् तम् अभिवाद्य च आरुरोह तदा लक्ष्म्या विराजयन् तद्भवो चाद्भुतं युद्धम् द्वैरथं रोमर्षणम् रामस्य च महाबाहो रावण्णास्य च रक्षसः स गान्धर्वेण गान्धर्वम् दैवं दैवेन राघव अस्त्रं राक्षस राजस्य जघान परमात्रवी अस्त्रं तु परमं घोरम् राक्षसम् राक्षसाधिपः ससर्ज परम पुनरेव निशाचरः ते रावण धनुर्मुक्ता शराकाञ्चन भूषणः अभ्यवर्तन्त काकुत्स्थम् सर्पा भूत्वा महाविषः ते वमन्तो ज्वलनं मुखै रामम् एवाभ्यवर्तन्त व्यादीप्तास्या भयानका तैर्वा सुखी समस्पर्शै दीप्तभोगे महाविषये दिशश्च सन्तता सर्वा विदिशश्च समावृतः तं दृष्ट्वा समापतत रामः समापत अहवे अस्त्रं गारुत्मतं घोरं भयावहं ते राघव धनुर्मुक्ता रुक्मपुङ्खा शिखि प्रभ सुपर्णा काञ्चना भूत्वा विचेरु सर्पशत्रवः तेतान् सर्वान् शरान् जघ्नो सर्परूपान् महाजवान् सुपर्णरूपा रामस्य विशिखा कामरूपिणः अत्रे प्रतिहते क्रुद्धो रावणो राक्षसाधिपः अभ्यवर्ष तदारामम् घोराभिः शरवृष्टिभिः तथा शरः सहस्रेण रामम् मातलिम् प्रत्यविद्यते चिच्छेदकेतुमुद्दिश्य शरेणैकेन रावणः पातयित्वा रथोपस्थे रथात् केतुम् च काञ्चनम् इन्द्रान् अपि शरजालेन रावणः विजयदूर्देव गन्धर्व चारणादानवैसः राममार्तम् तदा धृष्ट्वा सिद्धाश्च परमशयः व्यथितावानरेन्द्राय बभूवो सः विभीषणः रामचन्द्रमम् रामचन्द्रमसम् दृष्ट्वा ग्रस्तम् प्राजापत्यं च नक्षत्रम् रोहिणीं शशिनप्रियाम् समाक्रम्य बुधस्तस्थौ प्रजानानाम् हितावह स धूम परिवृतोऽर्मि प्रज्वलन्निवसागरः उत्पपात सदा क्रुद्ध स्पृशन्निव दिवाकरम् शस्त्रवर्णः सुपरशो मन्दरस्मि अदृश्यत कंधाकसक्तौम के कोसलाना चं व्यक्त अहत्यांगारकस्थौ विशाखिजाबरे दशा विंचति भुज प्रगृहत शरासन अदृश्यतश्रीव मैनाक पर्वत निरस्यमानो रामस्तु दशग्रीवेण रक्षस नाशक्नो तभि सन्धातुम् सायकान्द्रणमूर्धनि त्वा भ्रुपटिम् क्रुद्ध किञ्चित् संरक्तलोचनः जगामय सोमहाक्रोधम् निर्दहन्निव राक्षसान् तस्य क्रुद्धस्य वदनम् दृष्ट्वा रामस्य धीमतः सर्वभूतानि वित्रेषु प्राकम्पत च मेदिनी सिंह चार्दूलवाञ्छैल सञ्चचाल चल द्रुमः बभूव समुद्र सरिताम्पती काश्च करनिर्घोषा गगने परुषा घना औत्पातिका च नर्दन्त समन्तात् रामम् दृष्ट्वा सुसङ्क्रुद्धम् उत्पाताश्चैव दारुणान् वित्वेषु सर्वभूतानि रावणस्या भवद्भयम् विमानस्था तदा देवा गन्धर्वाश्च महोरगः ऋषीदानवदैत्या च गुरुत्मन्तश्च खेचरः ददृशुस्ते तदा युद्धम् नाना नानाप्रहरणे भीमै शूरयोः सम्प्रयुध्यतो ऊचु सुरासुरा सर्वे तदा विग्रहमागतः प्रेक्षमाणा महायुद्धम् वाक्यं भक्त्या प्रवृष्टवत् दशग्रीवम् जेत्याहु असुरसमवस्थितः देवारामम् असोचुस्ते तं जयेति पुनः पुनः एतस्मिन्नन्तरे क्रोधात् राघवस्य च रावणः प्रहर्तुकामो दुष्टात्मा स्पृशन् प्रहरणम् भज्रसारम् महानादम् सर्वशत्रू निबर्हणम् शलै शृङ्गनिभये कूटे चित्तदृष्टि भयावहम् स इव तीक्ष्णाग्रम् युगान्ताग्नि अतिरौद्रमनासाध्यम् काले नापि दुरासनम् त्रासनम् सर्वभूतानां, दारणम् भेदनं तथा प्रदीप्तैव रोषेण शूलं जग्राह रावणः तच्छूलम् परम क्रुद्धो जग्राह युधि वीर्यवान् अनेकैः शूरै राक्षस परिवारितः समुद्यम् मया महाकायो ननाद नादयुधि भैरवम् संरक्त नयनो रोषात् ससैन्यम् अभ्यर्चयन् पृथिवीं चान्तरिक्षं च दिश च प्रदिशस्तथा प्राकम्पयत्तदा शब्दो राक्षसेन्द्रस्य दारुणः अतिकायस्य नादेन तेन तस्य दुरात्मनः सर्वभूतानि वित्रेषु सागरश्च प्रशुक्षुभे स महावीर्य शूलं तद् रावणो महत् विनद्य सुमहानादम् रामम् परशुमब्रवीत् शूलोऽयम् वज्रसारस्ते रामरोषान्मयोद्यतः तव भ्रातृ सहायस्य सद्य प्राणान् रक्षसाम् मद्यशूराणाम् नियतानाम् च मुमुखे त्वां निहत्य ऋणश्लाघिन् करोमि तर्शासमम् तिष्ठेदानीम् निहन्मि त्वाम् एष शूलेन राघव एवम् मुक्त्वा स चिक्षेप तच्छूलम् राक्षसाधिपः सद् रावणकरान्मुक्तम् विद्युन्मालासमावृतम् अष्ट घण्टम् महानादम् व्यजतम् अशोभत तच्छूलम् राघवो दृष्ट्वा ज्वलन्तम् घोरदर्शनम् ससर्जे विशिखान् राम चापमायम्य वीर्यवान् आपतन्तम् च रोघेण वारयामास राघवः उत्पतन्तम् युवान्ताग्निम् जलौघैव वासवः निर्दधाः सतान् बाणान् रामः कर्मतान् रावस्य महान् शूल पतङ्गान्निव भूतान् शूलसंस्पर्श चूर्णितान् सायकान् अन्तरिक्षस्थान् राघव क्रोधमाहरे स्वतां मातुलिना नीतां शक्तिं वास्तवसम्मताम् जग्रह परम क्रोधो राघव रघुनंदन सातस्वनाज्वास युवा केव वसप्रभा सीता राक्षसे तस्ू पुपा भिन्न शक्ति महां चूलो निप्युति निर्विभेद ततो बाणै अयानस्य महाजवान राम तीक्ष्णै महावेगै वज्रकल्पैरजिम्मगै निर्विभेदो रसि तदा रावणं निशितैशरे राघवे परमायतो ललाटे पत्रिभिस्त्रिभिः स शरे भिन्न सर्वाङ्गो गत्र प्रसृत शोणित राक्षसेन्द्र समूहस्थ फुल्लाशोक इवा बभो स रामबाणे रतिविधात्रो निशाचरेन्द्र रक्षसगात्र जगामखेदं च समाज मध्ये क्रोधं चक्रे सुभृशं च दानीम् इत्याशी श्रीमद् रामायणे वाल्मीकि अधिकारे युद्धकाण्डे द्व्यशति सर्ग श्री सीताचंद्रारणमस्तु